मून्ावदशम् अम्बरीश चरितम् वैवस्वताक्यमनुपुत्रनभागजात नाभागनामक नरेन्द्र ना सुधोम्बरीष सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषुत्पै च मग्नमना सदैव त्वत्प्रीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देवन चिरादभृदा प्रसाथम् येनास्त्य याचनम् रुदेव्य प्ररक्षणार्थम् चक्रम् भवान् प्रविततारसहस्रधारम् सद्वादशी व्रतमतो भवदर्शनार्थम् वर्षम् ददौ मधुवनेयमुनोपकुण्ठे पद्न्या समम् सुमनसामकतिम् वितन्वन् पूजान् द्विजेषु विसृजन् पशुषष्टि कोटिम् तत्रादपारणदिने भवदर्शनान्ते दुर्वासनास्य मुनिना भवनम् प्रभेते भोक्तुम् व्रतस्य स रूपेण परार्तिशीलो मन्दम् जगामय मुनाम् नियमान् विधास्यन् राज्ञात् अपारणमुहूर्तसमाप्तिगेदाद् वारैवपारणमकारि भवत्परेण प्राप्तो मुनिस्तददिव्यदृशा विजानन् क्षिप्यन् कृतो द्रुतजटो जटो न धृत्या कृत्या च तामसि धराम्बवनम् दधन्ते अग्रे विवीक्ष नृपतिर्नपदाशकम्पे त्वद्बत्तपातमविवीक्ष सुदर्शनन्ते कृत्या नलम् चलभयन् मुनिमन् ददावेत् दावन्न शेषभुवनेषु बियास पच्छन् विश्वत्र दिलङ्क्य दीत्यभस्त सर्वम् ययौ स च भवन्त भवन्तदैव भूयो भवन्निलयमेत्य मुनिम् न मन्तम् रोचे भवानहम् ऋषे ननुभक्तदास ज्ञानम् तपश्च विनयान्वितमेव मान्यम् याकम्बरीशपदमेव भजेति भूमन् तावेत् समेत्य मुनिना स गृहीतपाधो राजा भसृत्य भवतस्त्रमासवनौषेत् चक्रे गते मुनि मुनिरधात किलोऽसि सोष्मे त्वद्भक्तिमागसि कृतेऽपि कृपाम् च सन्सन् राजा प्रतीक्ष मुनिमेघसमामनाश्वान् सम्बोध्य साधु तम् ऋषिम् विसृजन् प्रसन्नम् भुक्त्वा स्वयम् त्वयि तथोऽपि दृतम् तदोऽभूत् स्वायुज्यमाप च समाम् सर्वत्र गोपिका जीवनस्मरणम् गोविन्द गोविन्द